ब्रह्मात्मन्वकामय समात्मना पद्येऽपि आत्मन्नात्मन्नित्यामन्त्रयत तस्मै न शमकम् होतप्रत्यशृणोत् सदश होतो भवतेष होतो हवीनामैषः तम् वा एतम् दशहोतकम् सन्तम् रचोपदेत्याचक्षते परोक्षेण परोक्षप्रियाय बहिदेवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै सप्तमगम्भोगतप्रत्यशणात् सप्तभूतो भवते सप्तभूतो भवेनामेषः ब्रह्वारेतकम् सप्तभूतकम् सन्तम् सप्तहोते परोक्षेण परोक्षप्रियायि देवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै षष्ठकम्भोगप्रत्यशुणात् षठभूतो भवते षड्भोतो हवीनामेषः तं वालेतकम् षड्भोतकम् सन्तम् षड्भोतेत्याचक्षते परोक्षेण परोक्षप्रियाय बहिदेवाः आत्मन्नात्मन्नित्यामन्त्रयत तस्मै पञ्चमकम्भूतप्रत्यशृणाय स पञ्चहोत भवते पञ्चभोतो हवीनामेषः तं वालेतम् पञ्चहोतकम् सन्तम् पञ्चहोतेत्याजक्षते परोक्षेण परोक्षप्रियाय वहिदेवाः आत्मन्नात्मन्नित्यामन्त्रेत तस्मै चतुर्थकम् भवतप्रत्यशणात् चतुर्भोत भवते चतुर्होतो भवीनामेषः अम्बारेतम् चतुर्भोतकम् सन्तम् चतुर्भोतेऽप्यदक्षते परोवक्षेण परोवक्षप्रियाय वहिदेवाःब्रवीदेक्षकम् भवत प्रत्यश्रौषेः ख्यातार इति तस्मान्मुखेनागश्चतुर्होतार इत्याचक्षते तस्माश्रोषः पुत्रा नागम्हद्य नमः नैलिष्ठो हृद्य नमः नैदिष्ठ ब्रह्मणो भवति एवम् वेद ओष्ठो नमो नातिथर्दरोणे नो यज्ञमुखया विश्वा अग्नेभेदोभिहत्य शत्रोलनामाफलाभोजनानि अग्ने शब्धमहते स उभगाय तवद्युम्नान्युत्तमानि सन्तो सञ्जामः अर्नेयो जनः साञ्जले स्वभ्यमाभर अग्नेयो समानो निश्चनिष्ट्यः युग्मस्यैव प्रक्षागतः मातस्योच्चे अमिन्द्राविद्यार्यः वृदः पुरुचेतनः अपप्रादेन्द्रविश्वाकम् अमित्रा अपापात् अमित्राने न तस्मात् अपोदेत अपशोरासरा च भूरौ यथा तवशम् मन्मतेन नवीन्द्रम् पारयामधे महे वृताय हन्तरसम् गवेषणेभ्याम्ब्रह्माजुरानवस्तुः ष्टाश्चेमृत्तान्यपदेवाहम् अग्निर्गस्पृष्टगतमाहुवेम सृष्टमग्ने अभिजत्मनाहे विश्वाले पन्थाहिष्पध्येरन्नाय हविष्पन्तः देवं मत्ता धरीडते मन्ये रेदवेदसम् सह व्यापक्ष्यानुषगे विश्वारिणो दुर्गः जागवेदः सिन्धर्णनाभाजवर्णे अग्ने अभ्यमन्मनसा गणानः अस्माकम् भवद्भ्यपितातनूनाः ऊषागान्वेदनः ओषागक्षत्रर्वदः ओषावाजगुंस नोतनः ऊषयमाशा अनुवेदसर्वाः सो अस्माकम् अभयदमेन नेतत् स्वस्थिताशः सर्ववीरः अप्रेक्षन् पुरणे प्रजानन् वितन्मते अग्नेरक्षा किंसिक्रसः अग्नेरक्षा नोपदः प्रतिष्पदे वरेषदः प्रविष्टे रजरोदः अग्नेहकं सन्यत्रिणम् देद्यम्मध्ये स्वा स्वरेक्षरेव्रत आपातवाहिभेदजम् विवातवाह्यद्रवः वयम्भ्यविश्वभेदजः देवानाम् दूषीयसे द्वाविमो वातो वातः आसिन्धोरापरापदः लक्षम् मे अन्यः आपादौ परान्याद्रवः एतदोवाच देभ्ये अमृतस्य षितारिषते त्वमग्ने अयासि अयासन्मनसाहिदः अयासनव्यमोषिते अयानो धेहिभेषजम् इष्टो अज्ञाहुतः साहातप्रिवर्तुनः इदम् नमः कामो भूतस्य भव्यस्य सम्राटे को विराजते स इदम् प्रतिप्रथे कामस्तदग्रे समवर्ततारेदीपदेश्या कमयो मनीषा त्वया मन्यो सरसमाभिदन्तः हरितमानाथो धृतामरुत्पः मेषवायुधानाः न्युद्भगामन्युदेवासु देवः मन्युहोतामरुणाश्रमेदाः पण्डम् विषयी वयम् देयेः पाहिनो मन्यमतपसाश्रमेणे पदपच्युतिः देवागम् आसादया इहा अग्नेहव्यायमोषे वृतानबिभ्रद्पादाःभ्यः हि नो देवागम् अजरः समीरः ब्दानो अग्ने गोपायनो जागरे जातवेदः चक्षुरोहेते मनसो हेते वाचोहेते ब्रह्मणो हेते खागलभिराणो योमा चक्षुषा यो मनसा यो वाजागरभिरात्रि तयाणो यत् किम् जातो मनसा गच्छ वाच ष्टादाहुदे तन्विदेहम् कथम् अपाञ्जवो बाहु अपणह्याम् व्यास्यम् अपणह्यामि बाहु अपणत्याम् व्यास्यम् अग्नेयर्देवस्य ब्रह्मणा सर्वम् देवजयम् कृतम् परामृश्यवषत्कारात् यज्ञम् देवेषु स्थिति सृष्टमस्माकम् भूयात् मास्मान् प्रापण्डराजयः अन्ति भ्रातविजश्चाभिलाषुः षट्कारेण विज्रेण कृत्यागृह्ण्यकृतामहम् यो मानष्टन्निवासायम् प्रातश्चान्धो अद्यादिन्द्रवच्रेण भ्यातुर्यम् वादयामसि इन्द्रस्य गृहाभिदन्ताः प्रतद्येषु स्थाश्वः सहैर्मे अस्थितेन हीले अज्ञम्यपश्चितम् इरायज्ञस्य साधनम् सृष्टिवानम् भितावानम् अज्ञेषु केमदे वयम् यमम् देवस्य वादिनः तदिद्वेषांसितरेम अवतम् मासमनसौ तदेतसौ तरेरसौ भौ मापवदम् जादवेरसौ शिवो भवदमद्यनः स्वयन्द्रण्णः सुखमप्रयावम् जग्मशृङ्गामिनपः शोषितानः कर्तव्यम् सहस्रमनपश्यमानः आतन्तमज्ञव्यन्तदान तन्नस्तन्तयानः प्रयाः पृष्ठम् वयमारुहेम अथा देवैः समाजम् मदेम उदुत्तमम् मुग्धिनः विवादम् मध्यमञ्चत अवासमानिदः प्रजावन्तो धीमहि इन्द्राणि देवी सुभगासुपत्नीतकुंसेन पतिविद्येधिकाय त्रिपुंसदस्याजनयोजनानिभक्ति इन्द्राणी देवी प्रातः सानो देवी ध्रमाधर्म यच्छतो आत्त्वाहारिषमन्तलभोः ध्रुवश्रेष्ठा विचारिः शस्ता सर्वा वाञ्छन्तो मात्व ध्रुवाद्योर्ध्रुवा पृथिवी ध्रुवम् विश्वमिदम् जगत् इन्द्रयरेख्रवश्रेष्ठा विहराष्ट्रमुधार्य अभिषिष्ठपदन्यतः अधरेन्द्रयोत्रहातिष्ठा अपःक्षेत्राणि सञ्जयन् इन्द्रयेणीधरत् ध्रुवम् ध्रुवेण अभिषाः तस्मै देवाभिब्रमन् अयम् च ब्रह्मणस्पतिः दृष्टेन ब्रह्मणावस्पितनाम् अक्षमव्य इन्द्रेष्ठाः पापकालः यज्ञम् पापस्परेख्या वेश्या च मायत्राण्यग्नौ अन्य अश्रायज्ञस्य चक्षुः ह्यार्वाञ्चमजेतवे अस्माकमस्तु केवलः अर्वाञ्चमिन्द्रमोहवामहे योगो युद्धः इमन्ना यज्ञम् विहवे अस्य गम्मा हरिव मेधिनन्तायते नोमस्ते केशलभवद्भिश्रः अग्निरग्ने प्रथमो देवतानाम् सञ्ज्ञातानामुत्तमो विष्णुदासेत् विजमानायश्यदेवान् एक्षयेदकम् भविरागच्छन्नः अग्न्यश्च विष्णुमथमोत्तमम् महाक्षापालेभ्योपनतम् विदत्रा विश्वे देवे व्यज्ञयै संविधानौ देक्षामस्मै यजमानाय सत्तम् स्तव देवीर्याय मृगोणभिः कुतलोगरिष्ठाः यस्य विक्रमणेशो अधिक्षयन्ति भुवनानि विश्वाः होमर्दोदयदे तश्यदयः विष्णमनुगाया यदा सत् प्रयः सदाजामनता ध्रुवाहो अस्य केदवचनादः पुरक्षिम् त्रिनिमादकारः पृथिवी मेघजेतारम् महित्वारपदत्त्ववीराज्ञस्य शबिरस्य नाम होतारम् चित्ररसमर्धनस्य यज्ञस्य यज्ञस्य केतदम् हृदन्तम् प्रत्यर्थ्यम् देवस्य देवस्य मन्ना भिरवतिभिश्चा बृम्भयश्वया हि वरेभिश्चिप्रः हस्मेतसद्गृणं सुष्म्र इन्द्रस्वरिः भेदबृह्णा अविन्दजवतिर्बहरे अश्विनामवदेश्व नैयादगन्तुकदा सागरिक्तेन सुन उवागच्छदन्नः अविष्कन्धेश्वश्विनान आसो प्रयावत्रेतो अयम् नोऽस्तु आवाहम् के तु केतनरे तुनाः सुरत्रादो देववीतिङ्गमेवंसो मतभिः स्वगतद्भोः तं दक्षैः सुदक्षो विश्ववेदाः संवृषाभिषत्तेभिर्महित्वा यम्नेभिर्जुम्नभवो निदक्षाः अशातना सुम् सुवर्णामस्ताम् व्यजनस्य गोपाम् हेयम् चन्तामनुमदे भवामित्राणि विभवदज्ञम् नगे वयामधप्रधाः अधा ते विष्णुरा यज्ञस्य राज्यो हविष्पदः यः ज्ञानवेदेन सुमज्ञाने विष्णवेददासति यो जातमस्य महतो हरिप्रवाहारे श्रेदृश्रमोभिर्व्यञ्जलभ्यते तमस्तोतारञादस्य गर्भगम् हविरावर्तन आस्य चानन्तव नामजिद्विवर्तन भरते विष्णोसुमतिम् भजामहे इमाधानाभिद्रुवः है शिवोमक्षरः निन्दकम् सुखतमेरथे एतब्रह्मात्मदेमहे न्वेम्बलम् इन्द्रो नाम शरन्नयः हरिविष्टानुसेचदे शिरोगणाः त्वा विशन्तो हरिवर्पसङ्गिरः आदर्शिप्राविषभोजनानाम् राजाकृष्णीनाम् पुरुहूत इन्द्रः तुरश्रमस्कन्दपसोपमद्रिगेर् युक्ताह एव षणायाः कियच्छन्धवसमञ्जदायन् आपस्समुद्रथ्येव जग्मः अतश्चिरिन्द्रस्तरसौपरीयांसाः प्रो भजामचित्रेन्द्रे आशीर्वान् अनन्दयतोमत्तनवादे शतगतोमादयस्वासने पुरास्माकम् इन्द्रायसोभिहाय प्रयङ्गमाणाप्रोभाय इन्द्रविधस्य कृष्णः हरेण मानव यज्ञम् तुभ्यम् भवन्तः सुदासः रामो नवत्सुताया वरिष्ठा याध्वे प्रदे सन्ध्यवज्रो वर्तनानिन्द्रगव्यः प्रातुर्युजा अश्विनालेह गच्छनम् अस्य सोमस्य गीतये प्रातर्यामाना प्रथमायजध्वम् पुरागर्धा ददर्शपितरिः यज्ञमश्विनाभाजः प्रातर्यजध्वमश्विना हिनोत रसा गमस्ति देवयाजुष्टम् उतान्यो अस्पद्य पूर्व इदमानो मनीयान् नक्तम् जाताश्चोर्धे रामे कृष्णे अधिक इदल किलासम् पलितम् जयते किलासम् च पलितम् च निर्दोनाशयापृषत् ता अश्रो अश्रुनाम् वर्णः मरा श्वेतानिपादय असिदन्ते निलयनम् आस्थानमसितन्तम अधिक्रियस्य वषधे निर्दोनाशयापृषत् अस्थिरस्य किलासस्य तनोजस्य जेत्वया कृतस्य माता स्वरूपो नामते ते पिता स्वरूपा सोषधे सा स्वरूपमिदङ्कथे शृणकुम्भे अथवा नविन्द्रम् अस्मिन्फले नृतनम् राजधातौ षृण्मन्त्रमग्रमोदये समत्सु ग्रन्थम् हृत्राणि सञ्जितनाम् भूम् सत्याम् पर्वताम् दासुदेवसु निरादिहते यामनोभिया गोपयथपथे पश्निवातरः युधेद्रा पठतेरयुध्वम् प्रवेपयन्ति पर्मदा विविञ्चन्ति वनस्पतीन्तो देवाशः सर्वया विषा वृत्रा हि सुरङ्गवामहे समत्सर्ग्यमहते बाजयन्तो हवामहे बादे चित्रदाधनम् सङ्गच्छध्वकम् सम्बदध्वम्भोमनागुञ्जिजानताम् देवाभागम् यथा पूर्वे सन्ताना उपासदा समानो मन्दः समितिः समाने समानम् मनःसह चित्तमेढा समानम् चेत अभितम् न भ्रम् सञ्ज्ञानेन वविषा यदामः समाने वाकोतिः समानासदया निवः समानवस्तवो मनः यथा वस्ततः सति सञ्ज्ञानम् अश्वेः सञ्ज्ञानमरणैः सञ्ज्ञानवश्विना युवम् इहास्मादनियच्छदम् सञ्ज्ञानम् मे बृहस्पतिः सञ्ज्ञानकम् सवितागरद् सम् ज्ञानमश्विना युवम् इहमह्ययच्छतम् उपच्छायाभिः अगन्वशर्मदे वयम् अग्ने हिरण्यसन्दृशः अदद्धेभिः सविदः पायभिष्पम् शिवेभिरव्यपरिपाहिनागयम् हिरण्यजिप्ष्पस्तु पिताय लभ्यसे करक्षामाकिंसीशदा मते मते हिनादुः रोधागवामजक्रदुः रङ्गभायपदूषदा भयाहस्त्यावशो शिशिखिरायाभारानाम् पदे शरीभस्तपदकुंसना आतोणेन्द्रभाजया वो श्वेण सुभ्रडो सहस्रे सीमथ यद्देवादे वहम् देवादस्य कृमा वयम् आदित्यास्तस्मान्मा यूयम् रःकर्तेण मुञ्चदा रः कर्तेन्याः वितत्र मुञ्चतेऽहमा यज्ञेर्वो यज्ञमाहसः आशिक्षन्तो न शेजिमा वेदस्पता यजमानाः उदार्थे भजस्पदः अकामा वो विश्वे देवाः शिक्षन्तो नोपशेमेन स्योपत् भूतम् मातस्माद्भव्यम् च द्रुपदादिवमुञ्चदो द्रुपदादिवेण्डूचानः शिर्णस्नात्मेव मदादिव भूतम् पवित्रे नैवाज्यम् विश्वे गुण्डम् त्वमेन सह मरुद्वयम् तमस स्फले पश्यन्तोर्ज्योतिरुत्तरम् देवन्ते वत्त्रासूर्यम् अगन्भज्योतिरुत्तमम् पृषासो ृणोत् प्रियम् विशाकम् सर्ववीरकम् सुरीरम् प्रणपाकुण्ठपाय्यः यस्मिन् दध्रामनः सद्धेज्ये लोकयो कृष्णयानि पोगस्यामिलीलस्त्रम् समुद्रन्न शङ्खवक्षमाः पुनर्जिला विशन्ति इन्द्रायतिरोनिषितसर्गाः अपःप्रेरया छगनस्य बुद्धात् यो अक्षयणैव चक्रियाशैः निष्पक्तस्तम्भकुशले मुद्याम् अक्षोदयक्षमसा क्षामबुद्धम् दृढान्योभिना दुषमानभोजः अवाभिनत्तगुषः पर्वतानाम् आनुेषु केतुना रेम् विश्वाय पुंसामहेभगम् दक्षन्दधादिदीपसे रथ्युञ्जले मरुदः शुभे सुखम् सोरो नमित्रा वरुणागमिष्टिषु रजागुंसि चित्रा विचरन्ति सन्यवः दिवस्त्राजापयसानवक्षरम् वाचपुंसुमित्रावरुणामिलावतीश्चित्राम्वतचित्तृषीमती अभ्रावसदमरुदस्वमालिया ज्याम्वर्षयदमरुणामलेपसम् अयुक्तसप्तवः सोरवरथस्य न्यः काभिस्मयक्तुभिः अवमेरश्मयः सौर्यस्य सर्वे वा अप्सन्तः पर्जण्याय प्रजायिता देवस्पुत्राय मेघुवे सनायवसमिच्छन् अच्चावदवसङ्गेर्भिराभिः श्रीपर्जन्यमसाविवाद कणिक्रोतलात्मोषधेभम् गवात्यम् प्रर्जन्यः पुरुषीणाम् तस्मादिधास्य हविः द्योतामधुमत्तमम् इडाङ्गणः संयनम् करत् विश्रोग्ने शुचम् कृते न श्रेयः सर्यन् नामानिशब्द्याले प्रसूतयन्त्रफलवस्रुजाताः इन्द्रस्तुनः सुराधीरौ इमज्ञम् विक्षतम् गर्भन्धत्तग्निस्वस्तये ययोरिजम् विश्वम् भुवनमा विवेश ययोरानन्दो लिखितो महश्च सुराधीरादुभिः संविधानौ इन्द्रवन्तौ हविरञ्जुषेखा आधाय अग्निविन्धते स्मृन्ति बहिरा अथो वृत्रान्यप्रवकंशुवृत्रहन्तंसु वरजयन्नग्रजेव व्यापाकश्च दर्भुवनस्य मध्ये प्रदर्शणे कृषणा वज्रबाहु अग्नीन्द्रावृत्रहबाहुवे उदनः प्रिया प्रियासु सप्तस्वसा सुजुष्टा सरस्वती स्तोम्या भूज इमायत्माना युष्पदानमोऽ प्रतिस्तोमकम् सरस्वतिनिरस्त्व तव शर्मन् प्रियतमे दधानाः रामशरणम् न वृक्षम् ऋणि वदा विचक्रमे विष्णुगोपादाभ्यः ततो धर्माणि धारयन् पदस्य प्रियमभिधो अस्याम् एव मदन्ते क्रमस्य दैवन्धुरिच्छा विष्णाः पदे परमे मध्व उत्सः कर्ताद अस्तु श्रेष्ठः अद्यत्वा मर्तः नावृत्तिम् इमा ब्रह्मब्रम्भवाः प्रयाशम् वरसो नृण्वन्तमृदस्तगे स्मृगेका भवन्तु नद्यानो देवसविदः प्रयावत्सावेस्तौभगम् परादुष्पणयगुं सु विश्वानिदेवसवितः दुर्जाणि पराधु वा यद्भर्दन्तन्महा शुचिमक्कैर्बृहस्पतिम् अध्वरेषु नमस्य अनाम्यो चासारे वा सुदक्षा दक्षपिताला असुर्याय प्रमहसाेकति स्वे तस्मा इडाविन्द्वदे विस्मदानी तस्मै विधस्वयमेवा नमन्ति यस्मिन्ब्रह्मराजनिभोभवेति सकोदिविन्द्रक्ष्यतिम् सुरक्षिदम् ग्रहलक्ष्यतिम् कला काभान्नाभरा वयक्षन्निवसख्यो विलैन्द्रमधोलिः कनीपुनदिवसापयन् अभिनसृष्टुतिन्नय प्रजापतिस्त्रिया यशः मुष्टयोरथात्सवम् कामस्य दर्तिमानन्दम् तस्या शेभागे हवा बोधप्रमोदानन्दः मुष्टयोर्निगतत्सवः कामस्य दर्प्याणि दक्षिणानाम् प्रतिग्रहे मनसश्चित्तमापूर्तिम् वायः सत्यमधीमहि पशोनागम् रोगमन्यस्य यश्रेश्व यथाहमस्याज्ञस्त्रिगैपमान् यथा श्रीदृप्यति भुपुंसिम्भगस्तृप्यानि यज्ञस्त्रिकाम्यः प्रियः तदार्वदति तथेति वायुना हदत् हन्तेदि सत्यम् चन्द्रमाः आदित्यः सत्यमो विधि आपस्त्रसत्यमाभरन् यतो यज्ञस्त्रिलाम् अथोमे कामसमर्थ्यताम् अन्यमस्मात् वैश्वानलात्पुरगेतारमग्नेः अथैमन्थन्नमृतमूराः वैश्वानयम् प्रदित्यागदेवाः एकामे पूर्वे अर्मासन्न अयोपाः सद्वदा ब्रोणी वैश्वानरप्रयाते मुक्ताः पृथिवीमन्यामभिरस्वर्जनादः पृथिवीम् बातलम् महीम् अन्तरिक्षमुपब्रुवे बृहती नूतये दिवम् विश्वम् बिभर्ति बृहली अन्तरिक्षम् इव प्रजे नता न नत शन्त्यस्करः नैनामित्रोऽप्येवादियाभिर्यजते ददादि च योगिप्ताभिसृजते गोपतिः सह नदार्वारेणुपकारो अश्नुते प्रसर्गस्कयन्दिकाभिः मर्गस्य उपदेगादिवाकरम् गणेश्वरः स्तोमन्दियन्तदेवाः आम् विश्वरूपाः पशुपो वदन्दे सा नो मन्त्रेणोर्जन्धुहाना धेनुर्वागस्मानुपतुष्पते तु यद्वाग्पदम् कविते धनानि राष्ट्रिदेवानाह निदधा च मन्त्रा चतस्रवोर्जन्द्या पुंसि क्वश्चिरस्याः परमम् जगाम डोरीमायुसलिदानि लक्षति एकपदे द्विपदे सायुदष्पदे अष्टावेणपदे भो सहस्राक्षरापरमे व्यवन् तस्यागम् समुद्राधिविक्षरन्ति येन जीवन्ति प्रतिशुरःस्रः ततः अक्षरत्यक्षरम् तर्दिश्रौकर्येव इन्द्रासूरा जनयन् विश्वकर्मागम् अस्तु गणवान् चालवान् अस्य शुरा श्वशुरस्य प्रशिष्टिम्नावाचम् मनसा उपासतान् इन्द्रोरो अत प्रकाशपत्नाशुरो नमस्तु हरेम् शत्रुञ्जयगणाः अयम् वा निजयद्वाजसातौ आज्ञो देवच्छन्तायमानः समिधानमुग्रहः आनन्दृह्यते निरक्षते दिव्यः कर्मण्योभितो बृहन्नाम वृषभस्मयाभवत् विषोवानविष्णो भवतु अय्यो वामको विषाः अथो इन्द्रयमदेवेभ्यः इभ्रवीजनेभ्यः आयुस्पन्दम् वर्गस्पन्दम् अथो अधिपतिम् विशाम् अस्याः पृथिव्या अध्यक्षम् इममिन्द्रविषभङ्कणो यस्य शृङ्गस्वृषभः कल्याणो द्रोणाहितः कार्षीवनप्रकाणेन वृषभेण इजामहे वृषभेण इदमानाः अक्रूरेणैव इन्द्रेण व्रतनाश्रयामजे यस्यायटभो हवे इन्द्राय वर्णीयते अतो हन्त्यम् यदा न नामः प्रणेरसे अग्रबुद्धिम् ददामसत् लक्ष्मम् तनुभामेरयस्व नीता विश्वाभिमानेः पाषय्यो नो अस्ति पुरुणो लोकम्प्रेभितः मार्गेण विशुरष्पादनेषु उदीरितो इन्द्रशत्रोहम् पुरो अस्माकयुध्या अग्ने चेताञ्जगा शत्रोहं सह समोचसा द्विशत्रो निर्मसो न एतन्ते स्तोमन्तुमितादविप्रः रधीरस्तपालक्षम् यदेतग्ने प्रदृत्तम् देवहर्याः स्वर्वतीरपजेणाग्रेम योगदेनाभिमानितः इन्द्रयत्रायजज्ञरे सरःसङ्कासुवार पृथिवीक्षकंसु महरेतनः इन्द्रोगायः इन्द्रोदियवश्वाः इन्द्रोजातोपरस्वापरिव कृणोत् अयम्भेदः विश्वनिर्भ्यजित्सोमः विषर्भिप्रःकाव्येन वाजुरग्रेगायज्ञप्रीः साकम् जन्मनसायज्ञम् शिवो येद्भिः शिवाभिः पाजो शुक्रो अयामिते मध्वो अग्रन्धिविष्टिसो आयामपीतके स्वारुभोदेव वियुक्तता हिम्रमध्यक्षत्रियाणाम् अयम् विशाम् विष्पतिरस्तुराजाः अस्माकम्सिद्धेहि अवर्तसङ्करमस्य हिमवाभजग्रामे अश्वेषतोष मित्रो अस्य पशम् क्षत्रस्य अस्मै अयम् राजा देवस्य भूयात् पुत्ररावन्तमिन्द्रम् येन जयासियासि सत्त्वारयकवर्षभग्यस्वाना अथो राजम् नमम् मानवाना उत्तरस्तमधरेन्द्रीवान् विश्वासायन् अभिष्टुशक्रो गतस्थस्वा तत् क्षितगोष्ठान्ति नवद्रम् अनमयत्तरस्नैः योगतोषीणाम् ब्रह्म ज्येष्ठा वीर्यासम्भतानि ब्रह्माग्रे ज्येष्ठन्ति ब्रह्म प्रथमोदयज्ञे ङ्गः ब्रह्मोभितवने ब्रह्मणा स्वरवो मिताः ब्रह्मयज्ञस्य सन्तवः नित्यजो देहविष्कृतः शृङ्गाणि वे शृङ्गिणाकम् सन्दर्शेन्दस्वरवः पृथिव्याम्भ्यस्कन्नान् मावगाता विषाणामाहुलिम् मामहिष्टा हस्ता समत्नाः ईशानन्ताभुवनानाम् सौम्यज्ञपरुगतम् सुरीरम्नात्नवन्नवीयसा अर्जे ज्युम्लेन सञ्ज्ञता बृहत्तदम् सभानुनामग्नये दिवश्रेनायनीजनम् वसोः कविनादिनः स्वारुभायस्य श्रयोध्ये हरिवतो यथा अग्नेयज्ञस्य चेतः अदाेता अग्निर्विषाम् मारुषीणाम्सोमायवादिने आद्यसोजिने युष्टकंसजनमतो नवकिंसोमयुजस्वनः ये योषस्येहदृक्मिहि यस्य भागरिता वयम् सो हरस्य सोमदे वयम् आसुमरिङ्गणेमहे हवेस्वनः स्वभूतमम् राजन् सोमस्वस्तये न भग्स्तोमन्नवगुम् हविः इन्द्राग्निभ्यान्निवेदकुषेतांसजेतसा सुजग्नस्तोमन्नवजातमद्य इन्द्राग्ने मत्रिषा उपादिवाकम् सुभवाजो हवेमि यावाजगम् सद्यमुद्रेन्द्रोवस्कनः अस्य हव्यस्य दुर्गलाम् गच्छताम् वसुमन्तकम् सुमर्वितम् अस्य हव्यस्य दुर्गलाम् अज्ञेन्द्रवनवस्कनः विश्वाम् देवादिमर्पयत अविश्वास्कनवस्कनः समर्पितोहिरग् एनम् वर्हिः सुष्टरी मानवेन अयम् यज्ञ इयमानस्य भागः अयम् बभो भुवनस्य गर्भः विश्वे देव इदमद्यागमिष्ठाः इमे नद्या वा पृथिवी समीची अन्वाणे आत्मे प्रणेताम् भुवनाय ज्ञम् जसमाने न वेन समेधेद्यावापृथिवीघृतावाहनः चित्रफानघृताशुतिः नवजातो विरोचसे ते महित्मनम् एवताभ्यः भागे ते मनमीयसे श्रेनाविद्वान् यक्षसे न भग्वसो मन्युषस्वनः अग्निः प्रथमष्टाश्नातो हरिः शिवास्मभ्यमोषधी प्रणोदविश्वजर्षणिः भद्रान्नश्रेयः समनेष्टदेवाः प्रयापथेन संशयमहित्वा शणोमयोः पितो आविशस्व शन्तोकारे स्यो नः एतमद्यम् अधुनादयवम् सरस्वत्यादिमनाविदः इन्द्रादेत्येन परिश्रदुः केनाशासुदानवः प्राणोरक्षमे भूता बहुधा भूनि चेत्सर्वम् व्यामसे यो देवो देवे च विभूनन्तः आवधूताक्षेत्येभगद्गाः अमित्राणम् मनसोपशिक्षता अग्रम् देवानामिदमुत्तमाभि मनसश्चित्तेनम् भूतम् भव्यम् च गुप्यते तद्धिदेवेष्वग्रियम् आनये तु परश्रेयतिशेरति कर्मणि नित्यपनिन्दे यया देवी पुरोहितायिनि यया रूपान्य बुधा वदन्ति वेदादेवाः परमे चरित्रे स्फुरन्ति भवे चक्षुर्देवानाम् ज्योतिकम् अस्य विज्ञानाय बुधा निधीयते अस्य तु नमशीमहे मानोहासेलक्षणम् आदिरन्नः पतेर्यताम् अनन्धाश्चक्षुषाभयम् देवाज्योचलशीमहे सुभर्ज्योतिकृतामृतम् श्रोत्रेण भद्रमुदशन्वन्ति सत्यम् श्रोत्रेण वाजम्बोद्यमानाम् श्रोत्रेण मोदश्च महस्य सूर्यते श्रोत्रेण सद्भाजशासनोमि येन प्राच्यामुदक्षिणा े शृण्वन्त्यम्नम् अरानने विष्प सर्वम् बभूव उवेहि वा जन्यो अश्चत्सन्तः इदकम् राष्ट्रमाभिषोदतावत् यो रोहितो विश्वमिदम् जना सलो राष्ट्रे सुन्दो रोहगं रोहं रोहितानुहभिर्वभ्यम् जनजापस्थम् ताभिश्वलक्षर्वेः दातुम् प्रपश्यन्निह राष्ट्रमाहाष्ट्रमिहलोहितः पृथोज्ञास्तदभयम् नोऽस्तु अस्मभ्यम् द्यावापृशदे चमीभिः राष्ट्रम् दुहामिह रेवतीभिः भी। मिमरिसरोहितो विश्वरूपः समाजकारणप्रलोहोगश्चमहिम्ना विनो राष्ट्रमनक्तमयसा स्वेन यास्त्रभूभुः नायत्रम् वत्समनुतास्तारुः तास्तान्तमः सामाता पुत्रो अभ्येतरोहितः यूयमुग्रामरुदः पश्निमादरः इन्द्रेणेशत्रोन् आवहि स्मारुदम् रोहितो तस्मिन्स्तन्तम् परमेश्चेतदाना तस्मिन् शिष्यगे अतिवेकमान् ीेन तेन समस्त नागः स्व अन्तरिक्षेवालः हेन देवास्वरण्विन्दन् सेवन्तांसम् समग्रादो जक्वो जादवेदः रुक्षन्तित्वा वाचिन वासितेनसमग्ने भोजनानि अग्ने शब्धमहते सौभगाय तवद्युम्नान्युत्तमानि सन्तो सञ्जास्पत्यगुंसय ममागृष्म शक्रो यतामभिरिष्ठा महागुंसे पुनर्नयिन्द्रो महवाददातु धनानि शक्रोधन्यः सुदासाः अथवा चेदम् गृणुताञ्जाचितो मनः सृष्टेनो अश्च हविषो यषानः यानि नो निरन्दनानि जगत्थशोरमञ्जुनाः इन्द्रानुविन्दनस्तानि अनेन हविषागुणः इन्द्राशाभ्यः परे सर्वाभ्यभयङ्करते जे शत्रो आकोक्ते त्वा कामायक्ताशुधे त्वारोदधे अवदत्पाय जीवसे आकोजिमस्यापसे कामस्य समध्ये इन्द्रश्च इन्दते झयः आकोजिम् देवी मनसः पुरोदधे यज्ञस्य माता सुभमा अस्तु पृच्छामि मनसा स विधयमेण विश्वम् स लग्नग्ने कोवर्त्ये कन्यान् यत्र वा येतन मेलुवाणेः सहस्रपाठ अक्षरासमेति आशान्ताशापालेभ्यः मृदेभ्यः इदम्भो तस्याध्यक्षेभ्यः विधयमहमिदा वयम् विश्वा आशा अधुनाशम् ददामि अनमेव आपोषेण भवन्तो अयजमानो मृथो व्यस्यताम् अग्निः पशवः सन्तु सर्वे अग्निः सोमो वरुणो मित्रेन्द्रः बृहस्तनिः स पितायः सहस्री ओजा नो गोभिरवधा सरस्वती षष्टारूपाणि समनग्रिज्ञैः त्रष्टारूपाणि ददशति सरस्वती ऊजाफलम् सविता